अथ त्रिपञ्चाशः सर्गः खमुत्पतन्तम् तम् दृष्ट्वा मैथिलीजनकात्मजा दुःखिता परमोद्विग्ना भये महति वर्तिनी रोषरोदनताम् राक्षी भीमाक्षम् राक्षसाधिपम् रुदती करुणं सीता ह्रियमाणा तमब्रवीत् नव्यपत्रपसेणी च ज्ञात्वा विरहिताम् यो माम् चोरयित्वा पलायसे त्वयैव नूनम् दुष्टात्मम् भीरुणा ममापवाहितो भर्ता मृगरूपेण मायया यो हि मामुद्यतस्त्रातुम् सोऽप्ययम् विनिपातितः गृध्रराजः पुराणोऽसौ सखा ममा परमम् खलु दृश्यते राक्षसाधमा विश्राव्यनामधेयम् हि युद्धेनास्मिजिता त्वया ईदृशम् गर्हितम् कर्म कथम् कृत्वा न लज्जसे स्त्रियाश्चाहरणम् नीचरहिते च परस्य च कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् सुदृशम् तव शौटीर्यमाणिनः धिक्ते शौर्यम् च सत्त्वम् च यत् त्वया तदा कुलाक्रोशकरम् लोके धिक्ते चारित्रमीदृशम् किम् शक्यम् कर्तुमेवम् हि यज्जवेनैव धावसि मुहूर्तमपि तिष्ठत्वम् न जीवन् प्रति यास्यसि न हि मुहूर्तमपि जीवितुम् न त्वम् तयोः शरःस्पर्शम् सोढुम् शक्तः ने प्रज्वलितस्येव स्पर्शमग्नेर्विहङ्गमः साधु कृत्वात्मनः पथ्यम् साधु माम् मुञ्च रावण मत्प्रधर्षण सङ्क्रुद्धो भ्रात्रा सहपतिर्मम विधास्यति विनाशाय त्वम् बलान् माम् हर्तुमिच्छसि व्यवसायस्तु तेनी निरर्थकः न ह्य हम तम पश्यी भर्ताबुोपम उत्सह शुवशा प्राणिच नूनमचात्मन श्रेय पथ्यम वासमेक्षसे यथा मर्त्यो विपरीता सेवते मुमूर्षूं तोात्थ्यं तम रोचते पश्यामीह हि कण्ठे त्वाम् कालपाशावपाशितम् यथा चास्मिन्भयस्थाने न विभेषि निशाचरा व्यक्तम् हिरण्मयाम् स्वम् हि सम्पश्यसि महीरुहान् नदीम् वैतरणीम् घोराम् रुधिरोघविवाहिनीम् खड्गपत्रवनम् चैव भीमम् पश्यसि रावणा तप्तकाम् च वैदूर्यप्रवरच्छदाम् द्रक्ष्यसे शाल्मलीम् तीक्ष्णा मायसैः कण्टकैश्चिता न हि त्वमीदृशम् कृत्वा तस्यालीकम् महात्मनः धारितुम् शक्ष्यसि शिरम् विषम् पीत्वेव निर्घृणा बद्धस्त्वम् कालपाशेन दुर्निवारेण रावण क्व गतो लप्स्यसे शर्म मम भर्तुर् महात्मनः हा। निमेषान्तरमात्रेण विना भ्रातरमाहवे राक्षसा निहता येन सहस्राणि चतुर्दश कथम् स राघवो वीरः सर्वास्त्रकुशलो बली न त्वाम् हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् एतच्चान्यच्च परुषम् वै देही रावणाङ्कगा भयशोकसमाविष्टा करुणम् तदाता बहुचि विलाप पूर्व कर भाई जहार पापस्तुणी विचेष नृपात्मजागत गात्रे पथु इशे श्रीमद्रमाणे वाक आजिका अकाे पर्ग